हरि ओम् श्रीसीतारामचन्द्राभ्याम् नमः अथ श्री श्रीमदध्यात्मरामायणे श्री सुन्दरकाण्डे तृतीयसर्गः श्रीमहादेव उवाच उद्बन्धनेन वा मोक्षे शरीरम् राघवं विना जीवितेन फलं किं चान् मम रक्षोधिमध्यतः दीर्घावेणी ममात्यर्थम् उद्बन्धा भविष्य एवं निश्चित बुद्धि विलोक्य हनुमान किंचिति विचारे तनै शन सुव जानक्यागम बचह इक्काकुवश सूत राजा दशरथो मह अयोध्या चारो लोक विश्रुता पुत्रा देव समा सर्वे लक्ष्मणै उपलक्षिताः रामश्च लक्ष्मणश्चैव भरत चैव शत्रुः ज्येष्ठो रामपितुर्वाक्यात् दण्डकारण्यमागतः लक्ष्मणेन स भ्रात्रा सीतया भार्यया सह उवासः गौतमीतीरे पञ्चवट्यां महा मनः तत्र नीता महाभागा सीता जनकनन्दिनी रहीते रामचन्द्रेण रावणेन दुरात्मर ततो रामोति त्रि दुःखातु मार्गमाणोऽथ जानकीं पक्षिराजं पक्षिराजम् अपश्यत् पतितंभुवि तस्मै दत्वा दिवं शीघ्रम् दृश्यम्भोकम्पागमत् सुग्रीवेण कुता मैत्री रामस्य विदितात्मनः तद्भार्यहरिणं हत्वा वालिनं रघुनन्दन राज्ये विजित्य सुग्रीवं मित्रकार्यं चकारसुग्रीवस्तु समानाय वानरान् वानरप्रभो प्रेषयामास परितो वानरान् परिमार्गणे सीताया तत्र चैकोऽहम् सचिवो हरि सम्पाते वचनात् शीघ्रम् उल्लङ्घ्य शतयोजनम् समुद्रं नगरीं लङ्काम् विचिन्वन् जानकीं शुभां शनयशोकवनिकाम् विचिन्वञ्चिञ्च पातरुम् रक्षं जानकीम् अत्र शोचन्तीं दुःखसम्भुताम् रामस्य महिषीं देवीं कृतकृत्योऽहमागतः इत्युक्तो प्ररामाथ मारुति बुद्धिमत्तरह सीताक्रमेण तत्सर्वं श्रुत्वा विस्मय माययो किमिदं मे समुदीरितं सत्नोवामे वा <coughs> मे मनो भ्रान्ति यदि वा सत्यमेव तत् निद्रामेण सुदुःखेन जानाम्ये तत् कर्णपीयूषम् वचनं समुदीरितं सदृश्यतां महाभाग प्रियवादी ममाग्रतः श्रुत्वा तज्जानकी वाक्यं हनुमान् पत्र खण्डतः अवतीर्य शनै सीता पुरतः समवस्थितः करभिङ्कप्रमाणाङ्गो रक्तास्य पीतवानरः न नाम शनके सीताम् प्राञ्जलिः पुरतो स्थितः दृष्ट्वा तं जानके भीता रावणो य मां मोहयितुमायातु मायया वा न कृतिः इत्येवं चिन्तयित्वा सा तूष्णीमासीदधोमुखी वनरप्याहतां सीतां देवी यत्त्वं विशङ्कसे नहं तथा विधो मात च जशङ्कां दासोऽहं कोसलेन्द्रस्य रामस्य परमात्मनः सचिवोऽहम् हरिन्द्रस्य सुग्रीवस्य शुभप्रदे वायो पुत्रोऽहम् अखिले प्राणभूतस्य जोबने, तच्छ्रुत्वा जानकी प्राहे हनुमन्तं क्रुधाञ्जलिं वानराणां मनुष्याणां संगते घटते कथम् यथा दासो यमचंद्रस् दासोहति भाषसे तमहाली प्रीत जानक स्थित नोदी तुझी सुग्रीव ऋष्य मूकस्थो दृष्ट राम मृश्यामासो ज्ञात रायदत ब्रह्मचारीपुर्ध गतो रामसन्निधिं ज्ञात्वा रामस्य सद्भावं सन्धो परिनिधायत नीत्वा सुग्रीव सामीप्यं सख्यं चाकरमं तयो सुग्रीवस्य ऋता भार्या वालिना तं रघु तं जघानैकेन बाणेन ततो राज्ये विषये चेत् सुग्रीवं वानराणां स प्रेषयामास वानरान् दिग्भ्यो महाबलान् वीरान् भवत्या परिमार्गणे गच्छन्तं राघवो दृष्ट्वा मामभाषतसादरम् त्वयि कार्यम् अशेषं मे स्थितम् सर्वं सीताये मे कुशलं सर्वम् सीतायै लक्ष्मणस्य च अङ्गुलीयकमेतन्मे परिज्ञानार्थमुत्तमम् साधु क्षरमुद्रितम् इत्युक्त्वा प्रदतो मह्यम् कराग्रादङ्गुलीयकम् प्रयत्नेन मया नेतं देवी पश्चाङ्गुलीयकम् इत्युक्त्वा प्रददो देव्यै मुद्रिकाम् आरुतात्मजः नमस्कृत्य सितो दूरात् बद्धाञ्जलिपुटोहरि दृष्ट्वा सीता प्रमुदिता रामनामाङ्किता तदा मुद्रिकां शिरसा धृत्वा श्रवन्दानन्दनेत्रया कपे मे प्राणदाता त्वं बुद्धिमान् असि राघवे भक्तोऽति प्रेकारे त्वम् विश्वासोऽति तवैव हि नो चेन्मत्सन्निधिं चान्यं पुरुषं प्रेषयत् कथम् मम दुःखाधिकं त्वया सर्वं कथय यसामे जायते दया मासद्वयावधि प्राणा साक्षन्ति मम सप्तमः नागमिष्यति ये रामो भक्षयिष्यति मां खलः अथ शीघ्रं कपीन्द्रेण सुग्रीवेण समन्वितः वानरानेकपै साधम् कृत्वा सपुत्रं सबलं रामो यदि मां मोचेत् प्रभु तत्तस्य सुदृशं वीर्यं वीर्यवर्णय वर्णितम् यथा मां तारये रामो हत्वा शीघ्रं दशाननम् तथा यतः स हनुमान् वाचा धर्मम् अवाप्नुहि देवी दृष्टो यथा मया रम शीघ्रम् आगमिष्यति स युधे सुग्रीवेण सुसैन्येन कत्वादश मुखम्बरात् समानेष्यति देवी त्वाम् अयोध्याम् नात्र संशय है तम्बाह राम कथं वा हृदि मातम् स्थित्वा आत्मा त्वा नराने कपै सह आरुह्य पुरुषश्च भो आयास्य सुग्रीवो वा नरेश्वरः विहाय साक्षरेणैव सीत्वा वा निधि मातम् निर्दयिष्यति रक्षोभान् तत्कृते नात्र संशयः अनुज्ञां देहि मे देवि गच्छामि स्वरयान्वितः द्रष्टुं रामं स भ्रात्रा तरयामि देवे किञ्चिदभिज्ञानम् देहि मे येन राघवे विश्वसेन् मां प्रेस्नेन ततो गन्ता समुत्सकः तथा किञ्चिद् विचार्याथ सीता कमललोचना विवच केशपाशान्ते स्थितम् चूडामणिं ददौ अनेन विश्वसि धराम सापिन्द्रः स लक्ष्मण अभिज्ञानाथमन्यच्च पदाम्बी तव सुव्रत चित्र कूटगिरो पूर्वम् मदङ्के शिराधाय निद्रासि रघुनन्दन ऐन्द्र काकस्तदागत्य नखैतुण्डेन चासकरोत् मत्पादाङ्गुष्ठमारक्तम् विरधारामिषाचय ततो रामः दृष्ट्वा पादं कृतव्रणम् केन भद्रे कृतं चेतत् विप्रियं मे दुरात्मना इत्युक्त्वा पुरतोपश्यत् वायसं मां पुनः पुनः अभिद्रवन्तं रक्तात् नखतुण्डं च कोप तृणमेकमुपादाय भ्यद्रवद्वायसश्च भीतो लोकान् भ्रमन् पुनः इन्द्रब्रह्मादिभिश्चापि न शक्यो रक्षितुं तदा रामस्य पादयोरग्रे अपतद्भीत्यादय निधे शरणगतमालोक्य रामस्तमिदमब्रवीत् अनवगमे तदस्त्रं भे दत्वै काक्षमितो एवं पौरुषवानपि उपेक्षते किमर्थम् माम् इदानीं सोऽपि राघव हनुमान् पितामह श्रुत्वा सीतानुभाषितम् देवी त्वां यदि जानाति सीतामत्र रघुवत्तमः करिष्यति क्षणाद्भस्म लङ्कां राक्षसमण्डिताम् जानकी प्राहतं वत्स कथं त्वं योच्यसे सुरै अतिसूक्ष्म वपु सर्वे वनराश्च भवादृशा तद्वचनं देव्यै पूर्वश्रूपं दर्शयत् मेरो मन्दर संकाशं रक्षो वेण विभीषणम् दृष्ट्वा सीता हनुमन्तं महापर्वतसन्निभं हर्षेण माता विष्टा प्राय तन् कपि द्रक्षन्ति त्वां महाबलम् राक्षसस्ते शुभैः गच्छ रामांसिकम् द्रुतम् बुभुक्षितैकपिप्राहे दर्शनात् पारणम् मम भविष्यति फलै सर्वैः तव दृष्टोऽ मे तदेत्युक्ते सुजानक्या भक्षयित्वा फलं कपि तदप्रस्थापितो गच्छत् जानकीं प्रणिपत्यस किञ्चिद् दूरमथो गत्वा स्वात्मन्नैवान्वचिन्तयत् कार्यार्थमागतो दूत स्वामी कार्यविरोधत अन्यत् किञ्चिदसम्पाद्य गच्छत्येव स अतोऽहं किञ्चिदन्यच्च कृत्वा दृष्ट्वा जाथ रावणं सम्भाष्य च सतो राम दर्शनार्थं व्रजाम्यहम् इति निश्चेत्य मनसा वृक्षखण्डान् बले उत्पाट्याशु कवनिकां निर्वृक्षामकरोक्षणात् सीताश्रयणं त्यक्त्वा वनं शून्यं चकारयन्तं विपिनम् दृष्ट्वा राक्षस योषितः अपृच्छन् जानकीं कोऽसौ वानरः कुटिरुद्भटः जानकी उवाच भवन्त जानन्ति मायां राक्षस निर्मितां नाहं मेनं विजानामि दुःखशोकमाकुल इत्युक्त्वा त्वरितं गत्वा राक्षसो भयपीडितः हनुमता कृतं सर्वम् रावणाय निवेदयन् देव कश्चिन् महासत्वो वानर कृतदेहभृत् सीतया सह सम्भाष्य यशोक एव निकांक्षणात् उत्पाट्य चैत्यप्रासादम् प्रवञ्जयमित विक्रमः प्रासाद रक्षण सर्वान् हत्वा तत्रैव तस्थिवान् तच्छ्रुत्वा पूर्णमुत्थाय वनभङ्गम् महाप्रियं किङ्करान् प्रेषयामास नियुतं राक्षसाधिप निभग्न चैत्यप्रासाद प्रथमान्तर हनुमान् पर्वताकारो लोहस्तम्भ कृतायुध किञ्चित् लाङ्गुलचलनौ रक्तास्य भीषणाकृतिः आपतन्तम् महासङ्घं राक्षसानां ददर्श चकार सिंहनादं च श्रुत्वा ते मुहुहु मुहुर्भुषम् हनुमन्तम् अथ दृष्ट्वा निर्जघ्नो विविधा श्रोघैः सर्वराक्षसघातिनन् तत उत्थाय हनुमान् मुद्गरेण समन्ततः निष्पेशे क्षणादेव मशकान् निवयुथपः निहन्तान् किङ्करान् श्रुत्वा रावणक्रोधमूर्छितः पञ्चसेनापतिं तत्र प्रेषयामास दुर्मलान् हनुमान् पितान् सर्वान् लोह स्तम्भेन च तथा क्रुद्धो मन्त्रिसतान् प्रेषया मासप्ततः आगतान् पितान् सर्वान् पूर्व वैद्वान् कृणान् निश्चेष शोषतो हत्वा लोहस्तम्भेन मारुतिः पूर्वस्थानम् उपाश्रित्य चतुर्गाम बलवान् कुमारोक्ष प्रतापवान् तम् उपपाय हनुमान् दृष्ट्वा काशे समुद्र गगना त्वरितो मूर्ने मुदरेण विताडयत् हस्त्वा निशेषं बलं सर्वं चकारसह, ततः श्रुत्वा कुमारस्य राक्षस पुङ्गवः क्रोधेन मावी इंद्रजे तारब्रवीत पुत्र गच्चा तत्र, त्रास्ते पुत्र ऋपु हम अथवा बद्वा आनयष इंद्रजी पित प्रह तजशोकम बहमते मई स्थित किम तम भाषसे दुखित बचह बद्वा नेतम ताते वानरं ब्रह्म पार्शद इत्युक्त्वा रथमारुह्य राक्षसैर्बहुभिवृतः जगाम वायुपुत्रस्य समीपं वीरविक्रमः ततोऽपि गर्जितम् श्रुत्वा स्तम्भम् उद्यम्न वीर्यवान् उत्पपात न भो देशं गुरुत्मान्दिव मारुतिः ततो भ्रमन्तं नभसि हनुमन्तं श्रीमुखै विद्वा तस्य शिरोभागम् इषुभि चाचभि पुनरे हृदयम् षड्भिरे केन वालधिम् भेदयित्वा तत् घोरम् किंहनादम् अथकरोत् चाधनवान् स्तम्भम् उद्यम्य वीर्यवान् जघान सारथिं शाश्वम् रथं चाचूर्णयक्षणात् ततोऽन्यं रथमादाय मेघनादो महाबलय शीघ्रं ब्रह्माश्रमादाय बद्ध्वा नरपुङ्गवम् निनाय निकटम् राज्ञो रावणस्य महावले यस्य नाम सततं जपन्ति ये अज्ञानकर्म कुतबन्धनं क्षणात् सद्य एव परिमुच्य तत्पदं यन्ति कोटिरविभासुरं शिवम् तस्यैव रामस्य पदां भुजं सदा रुत्पद्मध्ये सुनिधाय मारुति सदैव निर्मुक्त समस्तबन्धने किं तस्य पाशे ऋतुरे च बन्धने इति श्रीमदध्यासु रामायणे उमामि श्रुतंवादे सुन्दरकाण्डे तृतीय सर्ग हे सीतारामचन्द्रार्पणमस्तु